युद्धकाण्डं सर्गं तन् श्रीमहादेव उवाच सभामध्ये राक्षसैः सहमन्त्रिभिः निर्ययौ एवशिष्टास्तै राक्षसैस्सह राघवं शलभशलभैर्युक्तः प्रज्वलन्तमिवानलम् तदो रामेण निहतात् सर्वे ते राक्षसायुधि स्वयं रामेण निहतस्तीक्ष्णबाणेन वक्षसि व्यथितस्त्वरितं लङ्कां प्रविवेश दशाननः दृष्ट्वा रामस्य बहुशः पौरुषं रावणो मारुतेश्चैव शीघ्रं शुक्रान्तिकं ययौ नमस्कृत्य दशग्रीवशुक्रं प्राञ्जलिरब्रवीद भगवन् राघवेणैवं लङ्गा राक्षसयूधपैः विनाशिदा महादैत्या निहताः पूर्वबान्धवाः कथं मे दुःखसन्दोहस्त्वयि तिष्ठति सद्गुरौ यदि विज्ञापितो दैत्यगुरुः प्राहदशाननं होमं कुरु प्रयत्नेन रहसि त्वं दशानन यदि विघ्नो न चेद्धो मे तर्हि होमानलोद्धितः महान् रथश्च वहाश्च चापतूणीरसा संभविष्य तैयुक्तस्तम जे भविष्य गृहामंत्र गोम गत्वा गण राक्ष ुहां पाताल सदशी मंद चकार लंगद्वाड़ादिब्धन होमद्रव्याणी संपाद युक्तचारिकिके प्रवेश चैकांदे मौनी होम प्रचक्रम उद्धृदम् धूममालोक्य महान्तं रावणानुजः रामाय दर्शयामास होमधूमं भयाकुलः पश्य रामदशग्रीवो होमं कर्तुं समारभद यदि होमः समाप्तः स्यात् तदा जेयो भविष्यति अधो विघ्नाय होमस्य प्रेषयासु हरीश्वरान् तथेधि रामसुग्रीवसम्मतेनाङ्गदं कपिं हनुमत्प्रमुखान् वीरानादिदेशमहाबलान् प्राकारं लङ्घयित्वा ते गत्वा रावणमन्दिरं दश कोढ्यः प्लवङ्गानां गत्वा मन्दिरक्षकान् चूर्णयामासुरश्वांश्च गजांश्च न्यहनन्क्षणाद् ततश्च सरमनामप्रभादे कस्तत्सञ्जया विभीषणस्य भार्या सा कोमस्तानमसूचयद गुहापिधानपाषाणमङ्कदः पादखट्टनैः चूर्णयित्वा महासत्त्वः प्रविवेश महागुहां दृष्ट्वा दशाननं तत्र मीलिदाक्षं दृढासनं तदोङ्गदाज्ञया सर्वे वानरा विविशुर्धृतम् तत्र कोलाहलं चक्रुस्ताडयन्तश्च सेवकान् सम्भारांश्चिक्षुपुस्तस्य होमकुण्ठे समन्तदः श्रुवमाच्छिद्यहस्ता च रावणस्य बलाद्रुषा तेनैव संजखनाशु हनुमान्प्लवगाग्रणीः क्नन्दिदन्तैश्च काष्ठैश्च वानरास्तमितस्ततः न जहौ रावणौ ध्यानं हतोऽपि विजिगीषया प्रविश्यान्तःपुरे वेश्मन्यङ्गदो वेगवत्तरः समानयत्केशबन्धे धृत्वा मन्दोदरीं शुभाम् रावणस्यैव पुरतो विलपन्दीमनाथवद विदधाराङ्गदस्तस्याः कञ्चुकं रत्नभूषितं मुक्ता विमुक्ताः स्पतिताः समन्ताद्रत्नसञ्जयैः श्रोणिसूत्रं निपतितं त्रुटितं रत्नचित्रितम् प्रदेशाद्विस्रष्टा नीवीतस्यैव पश्यतः भूषणानि च सर्वाणि पतितानि समन्दतः देवगन्धर्वकन्याश्च नीता ह्लाय् मन्दोदरी रुरोदाध रावणसग्रद भृश क्रोशंकुण दीना जगादशकंधरम निर्लजोसी परेश्य भार् तव किं जुहोषि न लज्जसे अन्यदे पश्यतो यस्य भार्या पापैश्च शत्रुभिः मर्तव्यं तेन तत्रैव जीवितान् मरणं वरं हा मेखनादते तेमादा क्लिश्यते बधवानरैः त्वयि जीवदिमे मे दुःखमीदृश्यं च कथं भवेत् भार्या लज्जा चर् मे जीवितताश्वा तद्देद मंदोदर्या मंदोदरिया दशानन उतस्थ खड्गद त्यजदेव मिब्रुवन जखानाङ्गतमव्यघ्रकटिदेशे दशाननः ततोत्सृज्य ययुः सर्वे विध्वंस्य कवनमहद रामपार्श्वमुपागम्य तस्तु सर्वे प्रहर्षिताः रावणस्तु तदो भार्यामुवाच परिसान्द्वयन् दैवाधीनमिदं भद्रे जीवता किं न दृश्यते त्यज शोकं विशालाक्षिज्ञानमालम्ब्य निश्चितम् अज्ञानप्रभवशोकशोको ज्ञानविनाशकृत अज्ञानप्रभवा हन्धि तन्मूलपुत्रधारादिसम्बन्ध संसृतिस्ततः हर्षशोकभयक्रोधलोभमोहस्पृहादयः अज्ञानप्रभवाह्येते जन्ममृत्युजरादयः आत्मातु केवलं आत्मादुकेवलं व्यधिरिक्तोक्ष्यलेपकः आनन्दरूपो ज्ञानात्मा सर्वभावविवर्जितः न संयोगो वियोगो वा विद्यते केनचित्सदः एवं ज्ञात्वा स्वमात्मानं त्यजशोकमनिन्दिते इदानीमेव गच्छामि हत्वा रामं सलक्ष्मणम् आगमिष्यामि नो चेन्मां धारयिष्यति सायकैः श्रीरामो वज्रकल्पैश्च तदो गच्छामि तत्पदं तदा त्वया मे कर्तव्या क्रिया मच्चासनात् प्रिये मया सार्धं त्वं प्रवेक्ष्यसि पावकम् एवं श्रुत्वा वचस्तस्य रावणस्यादिदुःखिता उवाच नाधमे वाक्यं शृणु सत्यं तथा कुरु शक्यो न राघवो जेतुं त्वया चान्यै कदाचन रामो देववरः साक्षात्प्रधानपुरुषेश्वरः मत्स्यो भूत्वा पुरा पुराकल्पे मनुं वैव स्वतं प्रभुः पद्यो राखवो भक्तवत्सलः रामकूर्मो कूर्मो भवत्पूर्वं लक्षयो जनविस्तृतः समुद्रमधने पृष्ठे दधारकनकाचलम् हिरण्याक्षोदिदुर्वृत्तो हतोनेन महात्मना क्रोडरूपेण वपुषाक्षोणीमुद्धरदा क्वचिदत्रिलोककण्टकं दैत्यं हिरण्यकशिपुं पुरा हतवान् नरसिंहेन वपुषा रघुनन्तनः विक्रमस्त्री सौ बलिब्वा जगत्यक्रम्यान्द्रा भृत्याय रघुसम राक्ष क्षत्रियाकारा भरावहाः भूमेभ बहुशोरामो भुवं जिवा जादो दा मुंतम जाघुवंशे परात्परदे रघुश्रेष्ठ मनुष्वग तर भार्थ्वासा वना बलाद मम पुत्र विनाशा स्वया निधनाय च इतः परं वा वैरेहीं प्रेषयस्वरकुतमे विभीषणाय राज्यं तु दत्वा गच्छामहेवनं मन्दोदरी वच रावणो वाक्यमब्रवीद कथं भद्रे रणे पुत्रान् भ्रातॄन् राक्षसमण्डलम् खादयित्वा राघवेण जीवामि वनगोचरः रामेण सह योत्स्यामि रामबाणैः सुशीघ्रगैः विदार्यमाणो यास्यामि तद्विष्णोः परमं पदम् जानामि राघवं विष्णुं लक्ष्मीं जानामि जानकीं ज्ञात्वैव जानकी सीदा मया नीता वनाद् बलाद रामेण निधनं प्राप्य यास्यामीति परं पदं विमुच्यत्वान्तु संसाराद् गमिष्यामि सह प्रिये परानन्दमयी शुद्धा सेव्यते या मुमुक्षुभिः तां गतिं तु गमिष्यामि अतो रामेण संयुगे प्रक्षाल्यकल्मषाणीह मुक्तिं यास्यामि दुर्लभाम् क्लेशादिपञ्चकथरङ्गयुतं भ्रमाढ्यं दारात्मजाप्तधनबन्धुचषाभियुक्तम् और्वान्नलाभनिजरोषमनङ्गजालं संसारसागरमदित्यहरिं व्रजामि इति श्रीमदध्यात्मरामायणे उमहेश्वर संवाद युद्धकांडे दशम सर्ग ओ